परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे है, प्रास उवाच कृते वरुणे रोगे नातीव पीडितः सुखात् दुःखं बलं प्राप्य व्यथितोभूद्वृजं तदा कुमारोसौ वने श्रुत्वा पितरम् रोगपीडितम् गमनाय मतिं राजन् चकार स्नेहयन्त्रितः संवत्सरे ते ते तु पितरं द्रष्टुमाधरात् गन्तोकं तु तं ज्ञात्वा चक्रजगाम्बः कृत्वा विप्रस्य सत्वरम् वाराया मास युक्त्या वै कुमारं गन्तुमुद्यतम् इन्द्रवाच राजपुत्र न जानासि राजनीतिं तु दुर्लभम् अथ करोषि मूढस्थं गमनाय मतिम् वृषाय पिता तव महाभाग ब्राह्मणे वेद पारगैः करयिष्यति ओमं ते ज्वलितेऽथ विभावसो आत्मा हि वल्लभस्तात् सर्वेषां प्राणिनां खलु तदर्थे वल्लभा सन्ति पुत्रधारु धनादय आत्मनो देह रक्षार्थं कृत्वा त्वां वल्लभं सुतं हवनम् कारयित्वा सो भविष्यति पितुर सदमात्र ग राजपुत्रगृह पित्र वास्तव नृपात्मज है वन मध्येत काम संवत्स नृप अत्यंतं दुखिता श्रोता हरिशंद्रम दमजे मतिम मदा मतिमचक्रे मैच है सुराशाण्य चोहित युक्तिन पुनः हरिश्चंद्रोखा तो वसी्ठम सुरक्षनाशा तक सुनिश्चित उत्तम् माह ब्रह्मणः पुत्रो यज्ञम् घोरुनृपोत्तमय कृतेन पुत्रेण शापभोक्षो भविष्यति पुत्रा दशविधा प्रोक्ता ब्रह्मणैः वेदपारगैः द्रव्येण नियतस्मात् पुत्रम् घोरुपोत्तम वर्णोऽपि प्रसन्नस्थ सुखकारी भविष्यति लोभा कौपुत्रोदिता राजयामास तदन्व कम अजीर दिज कचि भूपते। तस्पते सीयपुत्र निर्धनस्य विशेषतः प्रधानेनाप्यथापृष्टः पुत्रा सन्दुर्बलो द्विजः गवांशदम् ददामीति देहि पुत्रम् अखाय वै शुनश्च पुच्छ शुनश्चेपुनोलाङ्गूलैत्यमि तेषामेकतमं देहि ददामि तु गवांशदम् अजीरस्तृत्वा क्षुधया पीडितो वृषम् पुत्रं च कृतमां तेभ्यो विक्रेतुम् वै मनो दधे कार्याधिकारिणम् ज्येष्ठम् मत्वा दासो दुदानिष्ठम् नाप्यधा माता ना ममैष इति वादिने मध्यमं च शुनक्षेपम् ददोगवांश तेन च आनीनाय पशुं चक्रे ननभेदे नराधिपहे रुदन्तं दुःखितं दीनम् विपमानं भृजातुरं युपे बद्धं दीक्षामम् चक्रचोर्मुनयस्तय ननभेदे नराधिपहे शमिता नादशम्भयितुं शिशम् नाहं बीजसुतं दीनं रुदन्तं करुणम् भृशम् अनिष्यामि सुलोभासम् इत्युवाचाप्यसोतर इत्युक्त्वा विरलामासौ कर्मणो दुष्करा दथ राजा सभा सुरप्राय किं कर्तव्यम् इति द्विधाय प्रात किल किल शब्दो जनानां तदा कन्दमानेषु नेपि सभायां भुजमद्भुतम् अजीगर्ता तदोत्थाय तमुवाच नृपोत्तमम् राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव वेतनं द्रिवणं देहि हरिष्यामि पशुं ग कर्तव्यम् नख कार्यं वै मया सेद्य धनार्थिनय दुःखितस्य धनार्थस्य सदा सूया प्रसूयते तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः तम् उवाच ददाम्यज गवांश तम् मनोत्तमम् सदा कर्ण्य पिता तस्य पुत्रम् हन्तुम् ोऽसौ सामित्रे कृतनिश्चयः समुद्यतं चोतं दृष्ट्वा जना सर्वे सभासरः चक्रचुर्भ दुःखासायेति जगदुर्वचः विशासोऽयं महापापि क्रूरकर्मा द्विजाकृतिः यत् स्वयं स्वश्रतं हन्तुम् उद्यतः कुलपांसः दिश्चाण्डारो तस्ते पापकर्म चिकित्सितम् वा सुतम् धनं प्राप्य किं सुखं भविष्यति आत्मा वैरायते पुत्रे, रङ्गाद्वै भाषितं। तत् कथं पापबुध्ये तम् आत्मानम् हन्तुमिच्छति एवं कोलाहले तत्र जाते कोशेकनन्दन समीपं नृपतेर्यत्वा तम्मुवाच दयापरः विश्वामित्र उवाच त्रेपं रुदन्तं भुज दुःखितम् क्रतो ते भविता पूर्णो रोगनाशश्च सर्वथा दयाश्रमं नासि पुण्यं पापं युं दहि रागिणां नोदनेयम् विचारये आत्मदेहश्च रक्षासन् परदेह निकुन्दनम् न कर्तव्यम् महाराज सर्वतः शुभमिच्छताय दयया सर्वभूतेषु सन्तुष्टो येन केन च सर्वेन्द्रियोपशान्त्या च तुष्यत्या सु जगत्पतिः सर्वभूतेषु चिन्तनीयं नृपोत्तम जीवितव्यं प्रियं दोरम् सर्वेषां सर्वदा किले, हत्वा तमं कथं नेच्छेदो देहं रक्षितं स्वखास्पदम् पूर्वजन्म कुतं वैरं नानयेन स ते नृप ये हन्तु काम संविह पुत्रं निरागतं योयं हन्ति विरावैरं स्वकामं सततं पुनह, सारं हन्ति तं प्राप्य जननं जननान्तरे जनकोशे तु येना सोते समर्पितः सात्मजो धनलोभेन पापाचार सुदुर्मतिः ऐष्टव्या बह्वपुत्रा यदि कॉपी गयांत यजेत चाष्मेधे नीलम भाजमु देश मध्ये चिपकर्म सामचरे ष्टशत पाप से राजा भुक्ते संचय निषेधनीय राज्य है नषिद स्वयं पुत्रं द्विक्रेतुमुद्यतः सूर्यवंशे समुत्पन्नसङ्कुतनय शुभः आर्यस्तु अनार्यनार्यवत्कर्म कर्तुमिच्छसि पार्थिव गोचनान् मुनिपुत्रस्य कर कर्णात् वचनस्य मे तव देहे सुखं राजन् भविष्यति अविचारणात् पिता ते शापयोगेन चाण्डालत्वमुपागतः मया सोतेन देहेन स्वर्लोकम् प्रापृथक् तेनैव प्रीतियोगेन कुरु वचनम् नृप मुञ्चनम् बालकम् दीनम् रुदन्तम् भृशमातुरम् याचितोऽसि मया नूनं यज्ञस्मिन् प्रार्थनाभङ्गजं दोषम् कथं त्वां नवबुध्यसे प्रार्थितं सर्वदा देयं मखेस्मिन् नृपसत्तमः अन्यथा पापमेव स्यात् तव राजन्न संचयः इति तस्यैव च कौशिकस्य नृपोत्तमः पत्युवाच महाराज कौशिकम् मृषत्तमम् जलोदरेण गाधेय दुःखितोऽहं भृशं मुने तस्मान् मोचया मे न प्रार्थय कौचक न त्वया विग्रह कार्य कार्येऽस्मिन् मम सर्वथा तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽति कोपनः बभूव दुःखसन्तप्तो वीक्षेदं वियात्मजम् इति श्रीमद्देवी भागवते महापुराणे चालुराद्र्याम् संहितायाम् सप्तमस्कन्धे अध्यापको भूपस्य भूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः